ो नथपदिभ्यश्च वो नमो नमः सेनाभ्य वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतुभ्यश्च वो नमो नमस्तक्षभ्यो न सकारेभ्यश्च वो नमो नमः कुलारेभ्यः मारेभ्यश्च वो नमो नमः पुन्दिष्टेभ्यो निषारेभ्यश्च वो नमो नम इषकृद्भ्यो धन्मकृद्भ्यश्च वो नमो नमा विगजुभ्यस्वदिभ्यश्च वो नमो नमःभ्यश्च पदिभ्यश्च वो नमः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 नमोहा ज्येष्ठाय जघनिष्ठाय जनमः पूर्वजाय चनमो मध्यमागजा गन्भाय जनमो लघन्याय जबुघ्निजाय धनमसौभ्याय जप्रति सर्जाय धनमो यामन्याय चक्षेम्याय धनमपुर्वर्याय जखुन्याय धनमश्लोक्याय च्याय धनमो वन्याय झगक्ष्याय धनमश्रवाय जप्रति श्रवाय धनम आशुषेणाय चासुरथाय धनभः शूरा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 श्रमयुतम् पाशा मृत्यु मर्त्याय हन्त मे ताद्यस्य पायजा सर्व नवगजामहे भगवते रुद्राय विष्णवे मृत्युर्मे भाई प्राणा ग्रन्थिरसिरुद्रा शान्तगाः एनान्येनाहाप्याघस्वा न भारद्राय विष्णवे अग्निष्टमे धर्मस्त मे कश्चमे सूर्यस्तमे प्राणस्तमेऽश्मेधस्तमे पृथिवेत मे दिधिष्टमे दिदिष्टमेज्ञमे चत्वरे रङ्गुलजो दिषस्तमे जज्ञानकल्पम् तामृक्ष मे धामज मे स्तोमश्च मे जतुष्टमे दीक्षा च